गणपतिसहस्रनामस्तोत्रम् ॐ गणेश्वरो गणक्रीडो गणनाथो गणाधिपः एकदन्तो वक्रतुण्डो गजवक्त्रो महोदरः लम्बोदरो धूम्रवर्णो विकटो विघ्ननाशनः सुमुखो दुर्मुखो बुद्धो विघ्नराजो गजाननः भीमः प्रमोद आमोदः सुरानन्दो मदोत्कडः एरम्भः शम्भरः शम्भुर्लम्बकर्णो महाबलः नन्दनो लम्बडो भीमो मेघनादो गणञ्जयः विनायको विरूपाक्षो वीरशूरवरप्रदः महागणपतिर्बुद्धिप्रियः क्षिप्रसादनः रुद्रप्रियो गणाध्यक्ष उमापुत्रो घनाशनः कुमारगुरुरीशानपुत्रो मोषकवाहनः सिद्धिप्रियः सिद्धिपदिसिद्धःसिद्धिविनायकः अविघ्नस्तुम्बुरुत्सिंहवाहनो कटङ्कटो राजपुत्रः शाकलः संमितोमिदः कूष्माण्डसामसम्भोधिर्धुर्जयो धूर्जयो जयः भूपदिर्भुवनपदिर्भूदानां पदिरव्ययः विश्वकर्ता विश्वमुको विश्वरूपो निधिर्गुणः कभिः कवीनामृषभो ब्रह्मण्यो ब्रह्मविप्रियः ज्येष्ठराजो निधिपदिर्निधिप्रियपदिप्रियः हिरण्मयपुरान्तस्थ सूर्यमण्डलमध्यगः कराहदिध्वस्तसिन्धुसलिलः पूषदन्तभिद उमाङ्गकेलिकुतुकी मुक्तिधक् कुलपावनः वनमाली मनोमयः वैमुख्यहद दैत्यश्रीःपादाहदिजिदक्षिदिः सद्यो जातस्वर्णमुञ्जमेखली दुर्निमित्तहृदुःस्वप्नहृत्प्रसहनो गुणीनादप्रतिष्ठितः सुरूपः सर्वनेत्राधिवासो वीरासनाश्रयः पीताम्बरःखण्डरथखण्डवैशाखसंस्थितः चित्राङ्गश्यामदशनो बालचन्द्रोहविर्भुजः योगाधिपस्तारकस्थः पुरुषो गजकर्णकः गणाधिराजो विजयस्थिरो गजपतिर्धी देव देवस्म प्राणीपको वायुकलक विप्चिवरदो नादो नादिन्नमचल वराहरदनो मृत्युंजयो व्याख्राजिनाबर इच्छाशक्ति भवो देवत्रादा दैत्यविमर्दनः शम्भुवक्त्रोद्भवः शम्भुकोपः शम्भुहास्य भूः शम्भु तेजाशिवाशोकहारी गौरी सुखावहः उमाङ्गमलजो गौरी तेजोभूस्वर्धुनीभवः यज्ञकायो महानादो गिरिवर्ष्माशुभाननः सर्वात्मा सर्वदेवात्मा ब्रह्ममूर्धा ककुप्स्रुतिः ब्रह्माण्डकुम्भश्चिद्व्योमभालः सत्यशिरोरुहः जगज्जन्मलयोन्मेषनिमेषोऽज्ञर्कसोमदृग गिरीन्द्रैकरदो धर्मधर्मोष्ठः सामबृंहितः ग्रहर्क्षदशनो वाणीजिह्वो वासवनासिकः भ्रूमध्यसंस्थितकरो ब्रह्मविद्यामदोदकः कुलाचलांसो मार्कखण्डो रुद्रशिरोधरः नदी नदभुजसर्पाङ्गुलीकस्तारकानखः व्योमनाभिश्रीहृदयो मेरुपृष्ठोर्नवोदरः कुक्षिस्तयक्षगन्धर्वरक्षकिन्नरमानुषः पृथ्वी कडिसृष्टिलिङ्गशैलोरोर्दस्रजानुकः पातालजङ्घो मुनिपात्कालाङ्गुष्टस्त्रयी तनुः ज्योतिर्मण्डललाङ्गूलो हृदयालाननिश्चलः हृत्पद्मकर्णिकाशाली वियत्केलिसरोवरः सद्भक्तध्याननिगडः पूजा वारिनिवारितः प्रतापी काश्यपो मन्ता मन्दागणको विष्टपी बली यशस्वी धार्मिको जेदा जदाप्रथमप्रमथेश्वरः चिन्तामणिर्द्वीपपधिक्कल्पद्रुमवनालयः रत्नमण्डपमध्यस्थो रत्नसिंहासनाश्रयः तीव्राशिरोद्धृतपदोज्ज्वालिनी मौलिलालितः नन्दानन्दितपीठश्रीर्भोगदो भूषिदासनः सकामदायिनी पीठस्फुरदुग्रासनाश्रयः तेजोवदीशिरोरत्नं सत्या नित्यावतंसिदः सविघ्ननाशिनीपीठः सर्वशक्त्यम्बुजालयः लिपिपद्मासनाधारो वह्निधामत्रयालयः उन्नतप्रपदो गूढगुल्फः संवृदपार्ष्णिकः पीनजङ्घश्लिष्टजानुस्थूलोरुःप्रोन्नमत्कटिः निम्ननाभिस्थूलकुक्षिः पीनवक्षा बृहद्भुजः पीनस्कन्धकम्बुकण्ठो लम्बोष्ठो लम्बनासिकः भग्नवामरदस्तुङ्गसव्यदन्तो महाहनुः ह्रस्वनेत्रत्रयशोर्पकर्णो भगाकारकुम्भाग्रो रत्नमौलिर्निरङ्कुशः हा। सर्पहारकडीसूत्रः सर्पयज्ञोपवीतवान् सर्पकोडीरकटकः सर्पग्रैवेयकाङ्गदः सर्पकक्षोदराबन्धः सर्पराजोत्तरच्छदः रक्तो रक्ताम्बरधरो रक्तमाला विभूषणः रक्तेक्षणो रक्तकरो रक्तताल्योष्टपल्लवः श्वेदश्वेदाम्बरधरश्वेदमाला विभूषणः श्वेतातपत्ररुचिरश्वेतचामरवीजितः सर्वावयवसम्पूर्णः सर्वलक्षणलक्षितः सर्वाभरणशोभाढ्यः सर्वशोभासमन्वितः सर्वमङ्गलमाङ्गल्यः सर्वकारणकारणं सर्वदेववरः शार्ङ्गी बीजपूरी गदाधरः शुभाङ्गो लोगसारङ्गसुदन्दुस्तुवर्धनः किरीडीकुण्डलीहारी वनमाली शुभाङ्गदः इक्षुचापधरशूली चक्रपाणिः सरोजभृत पाशीधृतोत्पलशालिमञ्जरीभृत्स्वदन्तभृद कल्पवल्लीधरो विश्वाभयदैककरो वशी अक्षमालाधरो ज्ञानमुद्रावान्मुद्गरायुधः पूर्णपात्री कम्बुधरो विधृताङ्गुशमूलकः करस्थाम्रफलश्चूदकलिकाभृत्कुठारवान् पुष्करस् थस्वर्णखडी पूर्णरत्नाभिवर्षकः भारती सुन्दरी नाथो विनायकरदिप्रियः महालक्ष्मीप्रियतमः सिद्धलक्ष्मी मनोरमः रमारमेशपूर्वाङ्गो रमा दक्षिणो मामहेश्वरः जनन संब्रमोद महीवराह वामाङ्गोरदिगन्दर्पपश्चिमः आमोदमोदजनः सम्प्रमोदप्रमोदनः संवर्धिदमहावृद्धिर्वृद्धिसिद्धिप्रवर्धनः दन्दसौमुख्यसुमुखः मदना मदनावत्या श्रद्धाङ्घ्रिक् संबल्ल कृतवैमुख्यदुर्मुखः विघ्नसम्बल्लवःपद्मः सर्वोन्नदमद्रवः विघ्नकृन्निम्नचरणो द्राविणी शक्तिसत्कृतः तीव्रा प्रसन्ननयनो प्रसन्ननयनोज्ज्वालिनी मोहिनी मोहनो भोगदायिनी कान्तिमण्डनः कामिनी कामिनीकान्दवक्त्रश्रीरधिष्ठिदवसुन्धरः वसुधारामदोन्नादो महाशङ्खनिधिप्रियः न मध्वसुमदीमायी महापद्मनिधिप्रभुः सर्वसद्गुरुसंसेव्यशोचिष्केशहृदाश्रयः ईशानमूर्धा प्रत्युग्र नयनो दिव्यो दिव्यास्त्रशतपर्वधृक ऐरावतादिसर्वाशावारणो वारणप्रियः वज्राद्यास्त्रपरीवारो गणचण्डसमाश्रयः जया जय परिकरो विजया विजया वहः अजयार्चितपादाब्जो नित्यानन्दवनस्थितः विलासिनीकृतोल्लास सुमंगल सुमंगलः ्रयक्रियाधारच्छाशक्तिनिषेवितः सुभगासंसृतपदो ललिता ललिताश्रयः कामिनी पालनकामकामिनी केलिलालितः सरस्वत्याश्रयो गौरीनन्दनश्रीनिकेतनः गुरु गुप्त गुरगुप्तपदो वाचा सिद्धो वागीश्वरी सिद्ध वागीवरीपति कामको वामों ज्येषा मनोरम रौद्री मुद्रितबो हुंबीजस्तुंगशक्तिक विश्वादिजनन स्वाहाशक्तिसकलक अमृताब्धिकृतावासो मदघूर्निदलोचनः उच्छिष्टोच्छिष्टगणको गणेशो गणनायकः सार्वकालिकसंसिद्धिर्नित्यसेव्यो दिगम्बरः अनापायो नन्ददृष्टिरप्रमेयो जरामरः अनाविलोप्रतिहदिरच्युतो मृदमक्षरः अप्रतर्क्योक्षयोज्ययो नाधारो नामयोमलः अमेयसिद्धिरद्वैतमखोरोऽग्निसमाननः अनाकारोऽग्निभूम्यग्निबलघ्नो व्यक्तलक्षणः आधार आधारपीठार आधाराधेय वर्जि आखुदन आशापूरक आखुमारध इक्षुसागर मध्यस्थ इक्षुभस इक्षु चाप इक्षु निषेविद इन्द्रगोपसमानश्रीरिन्द्रनीलसमद्युतिः इन्दीवरदलश्याम इन्दुमण्डलमण्डितः इद्मप्रिय इडाभाग इडावानिन्दिराप्रियः इक्ष्वाकुविघ्नविध्वंसी इति कर्तव्यदेप्सिदः ईशानमौलिरीशान ईशान प्रिया प्रिय ईदिह ईक्षणात्रयकल्पान्त ईहामात्रविवर्जितः उपेन्द्र उडुभृन्मौलिरुडुनाथकरप्रियः उन्नतानन उत्तुङ्ग उदारस्त्रिदशाग्रणीः ऊर्जस्वानूष्मलमद ऊहापोह दुरासदः ऋग्यजुस्सामनयनरुद्धिसिद्धिसमर्पकः ऋजुचित्तैकसुलभो ऋणत्रयविमोचनः लुप्तविघ्नस्वभक्तानां लुप्तशक्तिसुरद्विषां लुप्तश्रीर्विमुखार्चानां लुदाविस्फोटनाशनः एकारपीठमध्यस्त ये एकपादकृतासनः ये येधिताखिलदैत्यश्रीरेधिताखिलसंश्रयः ऐश्वर्यनिधिरैश्वर्यमहिकामुष्मिकप्रदः ऐरम्मदसमोन्मेष ऐरावदसमाननः ओङ्कार वाच्य ओङ्कार ओजस्वानोषधीपतिः औदार्यनिधिरौद्धत्यधैर्य औन्नत्य निःसमः अङ्गुश्य सुरनागानामङ्गुषाकारसंस्थितः अस्समस्तविसर्गान्तपदेषु परिकीर्तितः कमण्डलुधरकल्पकर्पदी कलभाननः कर्मसाक्षी कर्मकर्ता कर्मा कर्मफलप्रदः कदम्बगोलकाकारः कूष्माण्डगणनायकः कारुण्यदेहकपिलक्कथखिसूत्रभृद खर्वः खड्गप्रीहक् खड्गः खान्धान्धस्थक् खनिर्मलः खल्वाडशृङ्गनिलयः खड्वाङ्गी खदुरासदः गुणाढ्यो गहनो गुहाशयो गुढाब्धिस्थो गुरुगम्यो गुरुर्गुरुः घण्टाकर्करिकामाली खडकुम्भो खडोदरः ङकारवाच्यो ङाकारो ङकाराकारशुण्डभृद चण्डश्चण्डेश्वरश्चण्डी चण्डेशश्चण्डविक्रमः चराचरपिता चिन्तामणिश्चर्वणलालसः चन्दश्चन्दोद्भवश्चन्दो दुर्लक्ष्यश्चन्दविग्रहः जगद्भ्यो निर्जगत्साक्षी जगदीशो जगन्मयः जप्यो जपपरो जाप्यो जिह्वासिंहासनप्रभुः श्रवद्गण्ढोल्लसद्धानचङ्कारिभ्रमराकुलः टङ्कारस्वारसम्रावष्टङ्कारमणिनूपुरः ध्वयीपल्लवान्तस्तसर्वमन्त्रेषु सिद्धितः डिण्डिमुण्डो डाजिनीशो डामरो डिण्डिमप्रियः ढक्कानिनादमुदिदो ढौङ्गोढुण्डिविनायकः तत्त्वानां प्रकृतिस्तत्त्वं तत्त्वं वदनिरूपितः तारकान्दरसंस्थानस्तारकस्तारकान्तकः स्थाणुस्थाणुप्रियस्थादास्तावरञ्जङ्गमञ्जगद दक्षयज्ञप्रमधनो दादा दानं दमोदया दया वां वान्दिव्यविभवो दण्डभृद्दण्डनायकः दन्तप्रभिन्नाभ्रमालो दैत्यवारणदारणः दंष्ट्रालग्नद्वीपखडो देवार्थनृगजाकृतिः धनं धनपदेर्बन्धुर्धनदो धरणीधरः ध्यानैकप्रगडोऽध्येयोऽध्यानन्द्यानपरायणः ध्वनिप्रकृतिचीत्कारो ब्रह्माण्डावल्मेखलः नन्द्यो नन्दिप्रियो नादो नादमध्यप्रतिष्ठितः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 प्रमाणप्रत्ययाति दः प्रणतार्तिनिवारणः फणिहस्तः फणिपदि स्फूत्कारः फणिदप्रियः बाणार्चिताङ्घ्रियुगलो बालकेलिकुतूहली ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः बृहत् मो ब्रह्मपरो ब्रह्मण्यो ब्रह्मविप्रियः बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ब्रूक्षेपदत्तलक्ष्मीको भर्गो भद्रो भयापहः भगवान् भक्तिसुलभो भूदिदो भूदिभूषणः भव्यो भूदालयो भूतालयो भोगदाभ्रूमध्यगोचरः मन्द्रो मदमत्तो मनोमयः मेखलाहीश्वरो मन्दगतिर्मन्दनिभेक्षणः महाबलो महावीर्यो महाप्राणो महामनाः यज्ञ यपीगोपतायल्रद यशस्को योगगम्योयाज्ञाजक प्रिय रसो रस प्रियो रजको रावणाचि राज्यरक्षाको रनगर्भो राजज्यसुखप्रद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 षडर्तुकुसुमस्रघ्वीषडाधारषडक्षरः संसारवैद्यः सर्वज्ञः सर्वभेषजभेषजम् सृष्टिस्तिदिलयक्रीडः साक्षी समुद्रमधनस्वयं वेद्यस्वदक्षिणः स्वतन्त्रसत्यसङ्कल्पः सामघानरतः सुखी हंसो हस्त्यपिशाचीशोहवनं हव्यकव्यभुक अव्यं हुदप्रियो हृष्ठो हृल्लेखा क्षेत्राधिपः क्षमा भर्ता क्षमा क्षमपरायणः क्षिप्रक्षेम करकक्षेमानन्दः क्षोणीसुरद्रुमः धर्मप्रदोर्धक्कामदा सौभाग्यवर्धनः आभिरूप्यकरो वीरश्रीप्रदो विजयप्रदः सर्ववश्यकरो गर्भदोषः पुत्रपौत्रदः मेधाधकीर्तिदशोकहारी दौर्भाग्यनाशनः ना प्रदिवादिमुखस्तम्भोरुष्टचित्तप्रसादनः पराभिचारशमनो दुःखः बन्धमोक्षदः लवस्तृढिक्कलाकाष्ठानिमेषस्तत्परक्षणः खडीमुहूर्तः प्रहरो दिवानत्तमहर्निशं पक्षो मासर्त्वयनाब्धयुगं कल्पो महालयः राशिस्तारातिधिर्योगो वारकरणमंशगं लग्नं होराकालचक्रं मेरुत्सप्तर्षयोद्ध्रुवः राहुर्मन्धकविर्जीवो बुधो भौमः शशीरविः कालसृष्टिस्तिधिर्विश्वं स्थावरं जङ्गमं जगद भूरापोऽग्निर्मरुद्व्योमाहङ्कृधिः प्रकृतिः पुमान् ब्रह्मा विष्णुः शिवो रुद्र ईषशक्तिः सदा किन्नराः सिद्धविद्याधराभूदा मनुष्याः पशवःखगाः समुद्रासरितः शैलाभोदं भव्यं भवोद्भवः साङ्ख्यं पादञ्चलं योगं पुराणानि श्रुतिस्मृतिः वेदाङ्गानि सदाचारो मीमांसा न्यायविस्तरः आयुर्वेदो धनुर्वेदो गान्धर्वं काव्यनाटकम् वैखानसं भागवदं मानुषं पाञ्चरात्रकं शैवं पाशुपदं कालामुखं भैरवशासनं शाक्तं वैनायकं सौरं जैनं मार्षदसंहिता सदसद्व्यक्तमव्यक्तं सचेतनमचेतनम् बन्धो मोक्षः सुखं भोगो योगः सत्यमनुर्महान् स्वस्ति हुम्फट् स्वधा स्वाहा श्रौ षड्वौ षड् वषन्नमः ज्ञानं विज्ञानमानन्दो बोधत् संवित् समो समः एक एकाक्षराधार एकाक्षरपरायणः एकाग्रधीरेकवीर एकोनेकस्वरूपधृक द्विरूपो द्विभुजो द्विक्षो द्विरधो द्विपरक्षकः द्वै द्विवदनो द्वन्द्वहीनो द्वयातिकः त्रिधामात्रिकरस्त्रेदात्रिवर्गफलदायकः त्रिगुणात्मात्रिलोकादिस्त्रिशक्त्रीशस्त्रिलोचनः चतुर्विधवजो वृत्तिपरिवृत्तिप्रवर्तकः चतुर्बाहुश्चतुर्दन्तश्चतुरात्मा चतुर्भुजः चतुर्विधोपायमयश्चतुर्वर्णाश्रमाश्रयः चतुर्थी पूजनप्रेतश्चतुर्थीतिधिसम्भवः पञ्चाक्षरात्मा पञ्चात्मा पञ्चास्यः पञ्चकृत्तमः पञ्चाधारः पञ्चवर्णः पञ्चाक्षरपरायणः पञ्चतालः पञ्चकरः पञ्च प्रणवमादृकः पञ्चब्रह्ममयस्फूर्तिः पञ्चावरणवारितः पञ्चभक्षप्रियः पञ्चबाणः पञ्चशिखात्मकः षट्कोणपीठक्रधामाड् ग्रन्थिभेदः षडङ्गध्वान्दविध्वंसी षडङ्गुलमहाह्रदः षण्मुखः षण्मुखभ्राता षट्शक्तिपरिवारितः षड्वैरिवर्गविध्वंसी षडोर्मिभयभञ्जनः षट् तर्क दूरषट्कर्मा षड् गुह्णषड्रसाश्रयः सप्तपादालचरणः सप्तद्वीपोरुमण्डलः सप्त स्वर्लोकमुकुटः सप्तसप्तिवरप्रदः सप्ताङ्गराज्यसुखदः सप्तर्षिगणवन्दितः सप्तच्छन्दोनिधिस्सप्तहोत्रः सप्तस्वराश्रयः सप्ताब्धिकेलिकासारः अष्टमूर्तेध्येयमूर्तिरष्टप्रकृतिकारणम् आश्टा अष्टाङ्गयोगफलभृदष्टपत्राम्भुजासनः अष्टशक्तिसमानश्रीरष्टैश्वर्यप्रवर्धनः अष्टपीठोपीठश्रीरष्टमातृसमावृतः अष्टभैरवसेव्योऽष्टवसुवन्द्योऽष्टमूर्तिभृद अष्टचक्रस्फुरन्मूर्तिरष्टद्रव्यसविःप्रियः अष्टश्रीरष्टसामश्रीरष्टैश्वर्यप्रदायकः नवनागासनाभ्यासी नवनिध्यनुशासितः नवद्वारपुरावृत्तो नवद्वारनिकेतनः नवनाथमहानाथो नवनागविभूषितः नवनारायणस्तुल्यो नवदुर्गानिषेवितः नवरत्नविजित्रागो नवशक्तिशिरोद्धृतः दशात्मको दशभुजो दशदिक्पतिवन्दितः दशाध्यायो दशप्राणो दशेन्द्रियनियामकः दशाक्षरमहामन्त्रो दशाशाव्यापि विग्रहः एकादशमहारुद्रैस्तुतशैका दशाक्षरः द्वादशद्विदशाष्ठादिदोर्दण्डास्त्रनिकेतनः त्रयोदशभिधा भिन्नो विश्वे देवाधिदैवतं चतुर्दशेन्द्रवरदश्चतुर्दशमनुप्रभुः चतुर्दशाद्यविद्याढ्यश्चतुर्दश जगत्पदिः सामपञ्चदशः तिथि पञ्चदशाकारस्थित्या पञ्चदशार्चिदः षोडशाधारनिलय षोडशस्वरमादृकः षोडशान्दपदावास षोडशेन्दुकलात्मकः कला सप्तदशी सप्तदश सप्तदशाक्षरः अष्टादशद्वीपपदिरष्टादश पुराणकृत अष्टादशौषधीसृष्टिरष्टादशविधिस्मृतः अष्टादश लिपिव्यष्टिसमष्टिज्ञानकोविदः अष्टादशान्नसम्पत्तिरष्टादशविचाधिकृत एकविंशः पुमानेकविंशत्यङ्गुलिपल्लवः चतुर्विंशतितत्त्वात्मा पञ्चविंशाख्यपूरुषः सप्तविंशतितारेषस्सप्तविंशतियोगकृद द्वात्रिंशद्भैरवाधीषश्चतुस्त्रिंशन्महाह्रदः षट्त्रिंशत्तत्त्वसम्भूधिरष्टत्रिंशत्कलात्मकः पञ्चाशद्विष्णुशक्तिषः पञ्चाशन्मातृकालयः द्विपञ्चाशद्वपुश्रेणी त्रिषष्ट्यक्षरसंश्रयः पञ्चाशदक्षरश्रेणी पञ्चाशद्रुद्रविग्रहः चतुष्षष्टिमहासिद्धियोगिनी वृन्दवन्दिदः नमदेकोनपञ्चाशन्मरुद्वर्गनिरर्गलः चतुष्षष्ट्यर्थनिर्णेदा चतुष्षष्टिकलानिधिः अष्टषष्टिमहातीर्थक्षेत्रभैरवववन्दितः चतुर्नवतिमन्त्रात्मा षण्णवत्यधिकप्रभुः शदानन्दश्शतधृदिश्शतपत्रायदेक्षणः सदा शतानीकशतमखशतधारावरायुधः सदा सहस्रपत्रनिलयत् सहस्रफणिभूषणः सहस्रशीर्षापुरुषः सहस्राक्षः सहस्रपादसहस्रनामसंस्तुत्य सहस्रा सहस्रा सहस्राक्षबलापहः दशसहस्रफणिभृद्भणिराजकृतासनः अष्टाशीतिसहस्राद्यमहर्षिस्तोत्रपाठितः लक्षाधारप्रियाधारो लक्षाधारमनोमयः चतुर्लक्षजपप्रीतश्चतुर्लक्षप्रकाशकः चतुरशीतिलक्षाणां जीवानां देहसंस्थितः कोटिसूर्यप्रदी काश्य कोटिचन्द्रांशुनिर्मलः शिवोद्भवाद्यष्टकोटिवैनायकधुरन्धरः सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतिः त्रयत्रिंशत्कोटिसुरश्रेणीप्रणदपादुकः अनन्ददेवदासेव्यो ह्यनन्दशुभदायकः अनन्दनामानन्दश्रीरनन्दोऽनन्दसौख्यदः मुनि अनन्दशक्तिसहितो ह्यनन्दमुनिसंस्तुतः अनन्दमुनिसंस्तुत ओन्नम इति गणपतिसहस्रनामस्तोत्रम् सम्पूर्णम् ओ